श्रीहरये नमः अथ षट्विंशोऽध्यायः श्रीभगवानुवाच अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् यद्विदित्वा विमोच्येत पुरुषः प्राकृतैर्गुणैः ज्ञानम् निःश्रेयशार्ताय पुरुषस्यात्मदर्शनम् यादहुर्वर्णये तद्धे हृदयग्रन्थिभेतनम् अनादिरात्मा पुरुषो निर्गुणप्रकृतेपरः प्रत्यक्ताम स्वयं ज्योतेर्विश्वं येन समन्वितं स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयं विभो यत्रुश्चयैवो भगतामप्यबध्यतलीलया गुणैर्विचित्रासृजति स्वरूपा प्रकृतिं प्रजाः विलोक्य मुमुखे सत्य सैह ज्ञानगुहया कर्तृत्वं प्रकृते पुमान् गुणैरात्मनि मन्यते तथस्य संश्रुतिर्बन्ध परातन्द्र्यं च तत्कृतं भवत्य कर्तुयीशस्य साशिणो निवृतात्मनः कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदोः भोग्रत्वे सुगदुःखानां पुरुषं प्रकृते फरं देवहूतिरुवाच प्रकृतेपुरुषस्यापि लक्षणं पुरुषोत्तमाः भ्रूगिकारणयोरस्य सतसश्च यदात्मकं श्रीभगवानुवाच यत्यत्रिगुणमव्यक्तं नित्यं सदशात्मकं प्रधानं प्रकृतिं प्राहूरविशेषं विशेषवत् पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्ततः एतत् चतुर्विंशतिकं गणं प्रधानिकं विदुः महाभूतानि पञ्चैव भूरभोग्नेर्मन्नभः तन्मात्राणि च तावन्ते गन्धदीनिमतानि मे इन्द्रियाणि दशश्रोद्रं त्वग्दृग्रसननासिकाः वाकरौ शरणौ मेड्रं वायोर्दशमवोष्यते मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकं चतुर्दालक्ष्यते भेदो वृत्त्यालक्षणरूपया एतावानेव सङ्ख्यातो ब्रह्मणश्च गुणस्य सन्निवेशो मया प्रोक्तो कालपञ्चविंसकः प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् अहङ्कारविमूढस्य कर्तो प्रकृतिं गीयुषः प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवेः श्रेष्ठतयतः भगवान् काल इत्युपलक्षितः अन्तःपुरुषरूपेण कलारूपेण यो बहे समन्वेत्येष त्वानां भगवानात्ममायया दैवाक्षुभितधर्मिण्यां स्वस्यां यो आधत्तवीर्यं सा महत्तत्त्वं हिरण्मयम् विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः स्वतेजसा विभत्तीव्रमात्मा प्रस्वापनं तमः यत् यत् सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् यथा कूर्वासुदेवाक्यं चित्तं तन्महदात्मकं स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः वृत्तिभिर्लक्षणं प्रोक्तं यथा प्रकृतेः परा महत्तत्त्वात् विकुर्वाणाद् बहद्वीयसम्भवात् तिरकङ्कारस्त्रिविधः समपद्यत वैकारिकस्तैजसश्च तामसश्च यथो भवः मनश्चेन्द्रियाणां च भूतानामहतामपि सहस्रशिरसं यमनन्तं प्रचक्षते सङ्कर्षणाख्यं पुरुषं बोधेन्द्रियमनोमयं कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणं शान्तघोरविमूढत्वम् इति वा स्यादहङ्कृतेः वैकारिकात्मि कुर्वाणात् मनस्तत्त्वमजायत यः सङ्कल्पविकल्पाभ्याम् वर्तते कामसम्भवः यद्वितुर्ह्यनिरुद्धाज्ञम् ऋषिकाणामधीश्वरम् सारदेन्ती वरस्यामं सम्भ्राध्यं योगिभीस्सनैः तैजसा तु विकुर्वाणा बुद्धि तत्त्वमभूत्सते द्रव्यस्फुरणविज्ञान इन्द्रियाणामनुग्रहः संशयोत विपर्श्यासो निश्चयस्मृतिरेव च स्वाप इत्युच्यते बुद्धेर्लक्षणमृतितः क्रियाज्ञानविभागसः प्राणस्य हि क्रियाशक्तेर्बुद्धिर्विज्ञानशक्तिता तामसाश्च विकुर्वाणात् भगवद्वीर्यचोदितात् सब्दमात्रमभूतस्मात् नभ तु सब्धगम् अत्राश्रयत्वं सुब्धस्य द्रष्टुर्लिङ्गत्वमेव च तन्मातृत्वं च न लक्षणं कवयो विदुः भूतानां चित्रधातृत्वं बहिरन्तरमेव च प्राणेन्द्रियात्मदिन्यत्वं नभसो वृत्तिलक्षणम् नभसः सप्त तन्मात्रात् कालगत्या विकुर्वतः स्पर्शो भवत्ततो वायोस्त्वक्पर्श्यश्च सङ्ग्रगः मृदुत्वम् कठिनत्वम् च शैत्यमुक्ष्णत्वमेव च एतस्पर्शश्च स्पर्शत्वम् तन्मात्रत्वं नभस्वतः चालनम् यूहनम् प्राप्तेर्नेतृत्वम् द्रव्यशब्दयोः सर्वेन्द्रियाणामात्मत्वम् वायो कर्माभिलक्षणम् वायो च स्पर्श तन्मात्रा रूपं दैवेरिधादबोद समुत्थितं ततस्तेजश्चक्षुरूपोपलम्भनं द्रव्याकृतित्वं गुणथा व्यक्तिसंस्तात्वमेव च तेजस्त्वं तेजसक्सा द्वे रूपमात्रस्य वृत्तयः द्योदनं पचनं पानमदनं हिममर्दनम् तेजसो वृत्तयस्त्वेधा सोक्षणं शोत्रुडेव च रूपमात्रा द्विकुर्वाणात् जिह्वा रसग्रहः काशयो मधुरस्तिक्त कट्वं लयि दिनैर्गता भौतिकानां विकारेण रसयेको विभध्यते क्लेदनं पिण्डनं तृप्तिं प्राणनाभ्याय नोन्धनं तापापनोतो भूयस्त्वम् अम्बसो रसमात्रा द्विगुर्वाणात् अम्बसोधैव चोदितात् गन्धमात्रमभूतस्मात् पृथिवी ग्राणस्तु गन्धगः करम्भूतिसौरभ्यं शान्धो ग्राम्लादिभिः प्रत द्रव्यावयवैषम्याद् पावनं ब्रह्मणस्थानम् धारणं सद्विशेषणं सर्वसत्त्वगुणोद्भेद प्रथिविवृत्तिलक्षणं नभोगुणविशेषोऽर्धो यस्य तत् शोद्रमुच्यते वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शणं विदुः तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरोष्यते अम्भो गुणविशेषो यस्य तत्र सनं विदुः भूमिर्गुणविशेषोऽर्थो यस्य सग्राणमुच्यते परस्य दृश्यते धर्मो य परस्मिन् समन्वयात् अथो विशेषो भावानां भूमावेवोपलक्ष्यते एतान्यसंहत् त्य मगधातिनी सप्त काल कर्म गुणो बेदो जगदादि उपाव ततस्तेनानुविद्धेभ्यो युग्धेभ्यो ण्डमचेतनम् उत्तितं पुरुषो यस्माद् अधिष्ठद्दसौ विराट एकदण्डं विशेषाज्ञं क्रमबिद्धैर्तशोत्तरैः तो प्रधानेनावृतैर्बहेः यत्र लोकवितानोऽयं रूपं बगवतो हरेः हिरण्मया दण्डकोसा दुग्धाय सलिले बहुतानिर्भेतकं निर्भेदगम् निरभिद्यथा स्यत्प्रथमम् मुखम् वाणी ततोऽभवत् वाण्या वह्िरथो नासे प्राणोदो घ्राणयेतयोः घ्राणात्वायुरभिद्येता अक्षिणे तस्मात् सूर्यो व्यभित्येताम् कर्णौ श्रोत्रम् ततो दिशः निर्बिभेत विराजस्त्वग् रोम स्मश्रवाधव्यस्ततः तदवोषधयश्चासन् सिस्नम् रेतस्तस्मादाप आसन्निरभिद्यत वै कुथं गुधादपानोपानाश्च मृत्युर्लोकभयङ्करः हस्तौ च निरभिद्येताम् बलं ताभ्यां तत स्वराट् पादौ गदिस्ताभ्यां ततो हरिः नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् नद्यस्ततः समभवन् नो धरम् निरभिद्यत क्षुत्पिभासेत तस्य तम् समुद्रस्त्वेतयोरभूत् अथास्य कृतयम् भिन्नं हृदयात्मनवुत्थिदम् बुद्धेर, बुद्धेर पतिः अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्तथो भवत् येतो ह्यव्युत्थिदा नैवास्यो तापने सखन् पुनराविवत्सुखानि तमुत्थापयितुं क्रमाद् वन्क्यर्वाचामुखं बेजे नोदतिष्ठत्तथा विराट् ्राणेन नासिके वायोर्नोदतिष्टत्तधा विराट् अक्षिणीसक्षुषाधिद्यो नोदधिष्ठत्तधा विराट् श्रोत्रेण कर्णौ च दिशो नोदधिष्ठत्तधा विराट् त्वचं रोमभिरोषद्यों नोदधिष्ठत्तधा विराट् रेतसासि स्नमापस्तो नोदतिष्ठत्तधा विराट् गुधं मृत्युरबानेन नोदतिष्ठत्तधा विराट् हस्ताविन्द्रोपलै नैव नो नोदतिष्ठत्तधा विराट् विष्णोर्कत्यैव चरणो नोदतिष्ठत्तधा विराट् नाटीर्नत्योलोहितेन नोदतिष्ठत्तथा विराट् शुद्रुव्यामुदरं सिन्धुर्नोदतिष्ट तथा विराट् हृदयं मनसा चन्द्रो नोदतिष्ठत्तथा विराट् बुद्ध्या ब्रह्माभिहृदयं नोदतिष्ठत्तथा विराट् रुद्रोमिमत्या हृदयं नोद तिष्ठत्तथा चित्तेन हृदयं चैत्यं क्षेत्रज्ञ प्राविसत्यधा विराट् तथैव पुरुष सलिला तु दतिष्ठता पुरुषम् प्राणेन्द्रियमनोदियः प्रभवन्ति विनायेन नोत्थापयितुम्बोचसा तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तय भक्त्या विरक्त्या ज्ञानेन विवेश्यात्मनि इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते कापिलेये तत्त्वसमाम्नाये षड्विंशोऽध्यायः सर्वत्र गोपिका गोपिकाजीवरस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमघराजिकी जै